गरुडपुराणम् आचारकाण्डम् अध्यायम् तर्टि एय्ट् हरिरुवाच नवम्यादौ यजे दुर्गां ह्रीं दुर्गे रक्षिणीति च माधर् माधर्वरे दुर्गे सर्वकामार्थसाधनी अनेन बलिदानेन सर्वकामान् प्रयच्छ गौरी काली उमा दुर्गा भद्रा मंगला, विजया, लक्ष्मी शिवानारायणी क्रमाद, मार्गे तृतीयामारभ्य पूजयन्न वियोगभाग अष्टादशभुजाम् खेटकम् खण्डां दर्पणं तर्जनी धनुर्ध्वजं दमरुकम्परशुम्पाशमेव च शक्तिमुशलशूलानि कपालशरकाङ्गुषान् वज्रचक्रं शलापां च अष्टादशभुजां स्मरेद मन्त्रश्रीभगवत्याश्च प्रवक्ष्यामि जपाधिकम् ॐ नमो भगवति चामुण्डे श्मशानवासिनि कपालस्ते महाप्रेत सरूे महाभिमलाकुले कालरात्रि बहुगणपरी महामुखे बहुभुजे सुखंडाडमरुकिंगणी के अटाटहासे किलिर्वनादशहु गजचर्म्रवृतशर रुधिमसधे लोलग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भीमाट्टाट्टहास्ये स्फुरिद विद्युत्समप्रभे चल चल करालनेत्रे हिलि हिलि ललजिह्वे ह्रौं ह्रीं भ्रुकुडिमुखि ॐ पारभद्रासने कपालमालावेष्टिते जडामुकुडशशाङ्कधारिणि अट्टाट्टहासे किलिकिलि हुं हुं दंष्ट्राखोरान्धकारिणि सर्वविघ्नविनाशिनि इदं कर्म साधय साधय शीघ्रं गुरुगुरु कः कः अङ्गुष्ये समनुप्रवेशय वर्गं वर्गं कम्पय कम्पय चल चल चालय चालय रुधिर मांसमद्य प्रिये हन हन कुट्टकुट्टचिन्द चिन्द मारय मारय अनुभूम अनुभूम वज्रशरीरं साधय साधय त्रैलोक्यगदमपि दुष्टमदुष्टं वा गृहीदमगृहीदम् आवेशय अवेशय क्राम यक्रमय नृत्य नृत्य वल्ग वल्ग कोड राक्षि ऊर्ध्वकेशि उलूकवदने करकिङ्गिणि पर कमालाधारिणि दश दस पच पच गृह्णघृण्ण मण्डलमध्ये प्रवेशय प्रवेशय किं विलम्बसि ब्रह्म सत्येन विष्णुसत्येन ऋषिसत्येन रुद्रसत्येन आवेशय आवेशय किलि किलि किलि किलि मिलिमिलि चिलि चिलि विकृतरूपधारिणि कृष्णभुजङ्गवेष्टिदशरीर सर्वग्रहावेशिनि प्रलम्भोष्टि भ्रूमग्ननासिके विकटमुखिकपलजडे ब्राह्मी भञ्जभञ्ज्वलज्ज्वलकालमुखि कलकलकर हरख पातय पातय रक्वाक्षिधूर्णापय धूर्णापय भूमिं पादय पादय शिरो गृह्ण गृह्णचक्षुर्मौलय मीलय भञ्च भञ्च पादौ गृह्णघृणमुद्रां स्फोडय स्फोडय हुं हुं फड्विदारय विदारय त्रिशूलेन भेदय भेदय वज्रेण हनहनदण्डेन ताडय ताडय चेक्रण छेदयच्छेदय शक्रिना भेदय भेदय दंश्रया दंशय दंशय कीलकेन कीलय कीलय कर्तारिकया पाडय पाडय अङ्गुशेन गृह्णगृह्णब्रह्माणि एहि एहि माहेश्वरि एहि एहि कौमारि एहि एहि वाराहि एहि एहि ऐन्द्रि एहि एहि चामुण्डे एहि एहि वैष्णवी एहि एहि हिमवन्तचारिणि एहि एहि कैलासवारिणि एहि एहि परमन्दं चिन्धि चिन्धि किलिगिलिबिम्बे अघोरे घोररूपिणि चामुण्डे रुरुक्रोधान्दविनिःसृदे असुरक्षयङ्करि आकाशगामिनि पाशेन बन्धबन्धसमये तिष्ठतिष्ठमण्डलम् प्रवेश्य प्रवेश्य पादय पादय गृह्णगृह्णमुखं बन्धबन्धचक्षुर्बन्धय बन्धय हृदयम् बन्धबन्ध हस्तपादौ च बन्धबन्ध दुष्टग्रहान् सर्वान् बन्धबन्धदिशाम् बन्ध बन्धविदिशां बन्ध बन्ध ऊर्ध्वं बन्ध बन्ध अतस्ताद् बन्ध बन्ध भस्मना पानीयेन मृत्तिकया सर्षपैर्वा आवेशय आवेशय पादय पादय चामुण्डे किलिकिलि वीक्षे ह्रीं फट् स्वाहा अष्टोत्तर पदानां हिमाला मन्द्रमयी जपह ये कैक्र पदमष्ट सहस्राधा त्रिमधुराकृदतिलाष्टसहस्रहोमः महामांसेन त्रिमधुराकृदेन अष्टोत्तर सहस्रम् च ये कैकम् च पदम् यजेद तिलां स्त्रिमधुराक्पदांश्च सहस्रम् चाष्टहोमयेदे महा मांसम् त्रिमधुरा दधवा सर्वकर्मकृदवारि सर्षप भस्मादिक्षेपाद्युद्धादिके जयः अष्टाविंशभुजाध्येया अष्टादशभुजाधव द्वादशाष्टभुजा वाभिध्येया वापि चतुर्भुजा अशिखेडान्वितौ हस्तौ गदादण्डयुधौ परौ शरचापयुधौ चान्यौ खड्ग मुद्र रसप्रसंयुतौ षड्गमुद्रससंयुतौ हंस खण्डान्विधौ चान्यौ ध्वजदण्डयुधौ परौ अन्यौ परशु चप्राढ्यौ दमरुदर्पणान्वितौ शक्तिहस्ताश्रितौ चान्यौ रढोणीमुसलान्वितौ पाशतोमरसंयुक्तौ डक् प्रापणवसंयुधौ तर्जयन्तीपरेणैव अन्यं कलकलध्वनिम् अभयस्वस्तिकाभ्यौ च महिषघ्नी च सिंहगा जय त्वं किल भूदेशे सर्वभूतसमावृदे रक्षमां निज भूतेभ्यो बलिं कृष्ण नमोऽस्तु दे इति महापुराणे आचारकाण्डे दुर्गाजपपूजाबलिमन्त्रनिरूपणम् नामाष्टत्रिंशोऽध्यायः ओम्